रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतं मुनिवृन्दगजेन्द्रसमानयुतं मुनिवृन्द गजेन्द्र समानयुतम् तव नौमि सरस्वतिपादयुगं तव नौमि शरप्रतिपादयुगं सशि शुदसुदाहिमधावयुतं शरदं बरबिम्बसमानकरम् बहुरत्न मनोहरकान्तियुतं बहुरत्न मनोहरकान्तियुतं तव नौमि शरस्वतिपादयुतं तव नौमि शर स्वतिपादयुलम् कनकाव्यविभूषित भूति भवम् भावविभापदम् प्रभुचेत समाहितसाधुपदम् प्रभुचेतसमाहितसाधुपदं तव नोमि शरशतिपादयुगं तव नोमि शर प्रतिपादयुगं भवगरमजनभेति नुतं प्रतिपादितसं तत्कारमिदं विमलादिक शुद्धविशुद्धपदं विमलादिक शुद्धवि शुद्धपदं तव नौमि सरस्वतिपादयुगं तव नौमि सरस्वतिपादयुगम् मतिहे न जनाश्रयपादमिदं सकलागमभाषित भिन्नपदं परिपूरितवे तमनेकभवं परिपूरितवे तमनेकभवं तव नोमि शरसतिपादय कवनोमि सरशतिपादयुगम् परिपूर्णमनोरथ धामनिधिं परमार्थविचारविवेकविधिं सुरयोषितवितपादतलम् सुरयोषितसेवितपादतलं तव नौमि शर सतिपादयुगं तव नौमि शर सतिपादयुगं सुरमौलिमलिदुतिशोभ्रकरम् विषजादिमहाभयवर्णहरं निजकान्तिविलये पितचन्द्रशिवं निजकान्तविलये पितचन्द्रशिवं तव नौमि शर प्रतिपादयुगं तव नौमि सरशतिपादयुगम् गुणनैककुलं स्थितिभेतपदं गुणगौरवगे कमलो दर कोमलपादतलं कमलो दर कोमलपादतलं तव नोमि शरस्वतिपादयोगं तव नोमि शरस्वतिपादलोगं तव नोमि शरस्वतिपादयोगम्